Oh े गुरोडाशमष्टाकपालं नर्वपतिथे दुर्दक्षिणाय प्रत्यञ्चायावशेयं दे तन्नैरतमेकपालं कृष्णं वासः कृष्णतोषं दक्षिणामेः स्वाहाहुदिञ्जुषाणदेशे ने भागो भूते हविष्मत्यसि मुञ्चे मम ग्ने सौमेधमेकादशकपालगृं हिरण्यं दक्षिणैन्द्रमेकादशकपालवृषभो वहे दक्षिणाग्मष्टाकपालमहीन्द्रं आह्मेलमष्टागपालं नर्वपदि सौम्यं चरुगुं सामित्रं द्वादशकपालगुं सारस्वतञ्चरुं भोष्णं चरुं मारुतगुं सप्तकपालं वैश्वदेवी वे मामिक्षावालम् इन्द्राग्नमेकादशकपालम् मारुती मामिक्षाम् वारुणी मामिक्षाः कायमेककपालम् का वृहास्या निर्हवामहे मरुतो यज्ञवाहसः करम् भेणसजोषसः पोषोण इन्द्रमृत्सुदेवास्तु स्मते सुष्मिन्नवया महेश्यस्य मेधुषो यविजा हविष्मतो मरुतो वन्दते गीरे यद्ग्रामे यदण्डत्सभायायदिन्द्रिये यदक्षोद्रे यदेनश्च कर्मा वयम् यदेकस्याधिधर्मणि तस्या भजदनमसि स्वाहा अक्रम् कर्म कर्म कृतः सह वाचा वयोभुवा देवेभ्यः कर्म कृत्वा अग्नये नीकपले पुरोडाचमष्टाकपालम् निर्मपदि साधकम् सौर्ये वाद्यथा मरुद्भ्यः सान्द्रवनेभ्यो चरुम् मरुद्भ्यो गृहमेथेभ्यः सर्वासाम् दुग्धे सारिम् चरुम् भूर्मादर्भिपरावद निहारमिन्निमे हरा निहारन्निहरामि ते मयोद्भ्यः क्रीडेभ्यः पुरोडाशकुम् सप्तकपालम् नर्वपदि साकगुम् सूर्ये वाद्यथा ज्ञेयमष्टाकपालम् गर्वपदि सोमार्यमिदमदे पुरोडाशकुम् शक्यपालम् नर्पपदि विदुर्भ्यो परिषद्भ्यो धानात् पितुभ्यो ह्यष्वात्तेभ्योऽभिन्याजिदुग्धे मन्थमे दत्ते ततये छत्वामे दत्ते पितामहप्रपिदामहरे छत्वा यो जान्विन्द्रतेहरी अक्षन्न मे मदन्त ह्यवप्रिया अथोषत अस्तोषतस्व भानवो विप्राणविष्ठजामती यो जान्विन्द्रतेहरी अक्षम् पितरोमि मदन्त पितरोति नृपन्त पितरोमि वृजन्त पितरः परेदपितरः सोम्यागम्भीरैश्वसिभिः पूर्व्यैः अथा विलेच्छुम् अपीतय मे नये समादम् वदन्ति बाहुवामहे नाराश पुंसेन स्तोमेन विदमाञ्च मन्मथिः आनये तु मनः पुनः क्रत्वे दक्षाय जीवसे ज्योक्तसूर्यम् दिशे पुनर्नः पितरो मनो ददातु नैव योजनः जीवम् रातगुम् स दरिक्षम् पृथिवीमुद्यायन्मातरम् पितरम् वालेयम् सीमार्निर्मातस्मादेन सोदार्हमत्यः प्रमञ्च तदु पिता जानि च क्रमकरोतु मामनेन सम् ोरुषमेकगपालाभक्त्यै गमजविञ्जावन्तो गृह्याः स्मस्य कमकरम् वसो नागम् शर्मासि शर्म यजमानस्य शर्म मे दच्छैकदेव रुद्रो नस्तेरुद्रवसुस्तञ्जुषस्वैषते रुद्रभागः सह स्वकजातञ्जुषस्व भे हजम् गवेष्वजमुषा नजमसो सुगम्मे शायेष्याम्बकम् द्रमधिमह्यमदेवम् त्यम्बकम् यथा न श्रेरसः करद्यथा नो वस्य नेषते रुद्रभागस्तञ्जुषस्वते नावसेन ना परोमोच पतो देह्यवतथन्वापि नागास्ताकृसाः ऐन्द्राग्नं द्वादश कपालम्बैश्वरे वं चलुमिन्द्राय सुनासे राजपुरोसं द्वादश कपालं बालौ जम्बयः सौरुजमेककपालं द्वादश गवगुंसेरं दक्षिणाग्नेजमष्टाकपालं निर्मपति औद्रङ्गामेन्द्रं दधि वारुणय्यवजञ्चरुं भजिने धेमद्दक्षिणादेवाः पुरः सदोग्नेत्र दक्षिणसदो यमनेत्राः पश्चात्सदस् णे तुसदो वरुणनेत्रावुपरिषदो बृहस्पतिनेत्रारक्षो हस्ते नः पान्तु तेनो बन्धुतेभ्यो नभस्तेभ्य स्वाहां रक्षस्कं दग्धकुं रक्षितमार्गं रक्षोऽसन्दहां नग्नजे रक्षो स्वाहायमायसमित्रे वरुणाय बृहस्पतरे दुवस्पदे रक्षोग्ने स्वाहा रथो दक्षिणा सवेश्विनोर्बाहुभ्याम्बोष्मास्ताम् रक्षसो वधन् जहो मिहतकम् रक्षो वधिष्ण रक्षो यद्वस्ते तद् धात्रे पुरोडाशम्बादशकपालं नर्वपत्यनुमत्यै चरुगुं राकायै चरुगुं शनिवार्यै चरुं गुह्वै चरुं व्यनौ गावो दक्षिणाग्ना वैष्णवमेकादशकपालं नर्वपत्ययेन्द्रा वैष्णवमेकादशकपालम्बैष्णवं दृकपालम्बा मनो वहै दक्षिणाग्नि दक्षिणा गोमा वोष्णम् चरुन् निर्वपत्ययेन्द्रापोष्णम् चरुम् पोष्णम् चरुव्यश्यामो दक्षिणा वेश्वानरङ्गपति दक्षिणा स्मत्यञ्चरण्र्पपति ब्रह्मणो गृहे श्रीकृष्णो दक्षिणैन्द्रमेकादशकपालकं राजन्यस्य गृहरणभो दक्षिणादित्यञ्जरं महिष्ये गृहे धेनुं दक्षिणालैरञ्चरं परिवृत्यै गृहे कृष्णानां विहेनान्न खलद् भिन्नं कृष्णाकूटादक्षिणाज्ञैलमष्टाकपालकं सैनान्यो गृहे हिरण्यं दक्षिणावारुणं दशकपालकं सोतस्य गृहे महानिर् ष्टो दक्षिणामारुजगं सप्तकपालं रामण्यो गृहे पृष्ण्य दक्षिणा साभित्रं द्वादशकपालं शत्रुर्गृहुपध्वस्तो दक्षिणाश्विनन् विकपालगं संग्रहेतुर्गृहे सभात्यौ दक्षिणामोष्णं चरुं भगदुभस्य गृहे श्यामो दक्षिणारौद्रङ्गावेधुगं चरुमक्षाभावस्य गृहे शफलगुद्वारो दक्षिणेन्द्राय सुत्रा पुरोणाशमेकादशकपालं प्रदिने सर्वपतेन्द्राजा गुम्हो मुजे जन्नो राजा वित्रहारा भोक्त्रं मयेत्रावार्हस्पत्यं भवति श्वेतादेः श्वेतवच्छ दुग्धे स्वयम् स्वयम् असितः स्वच्छ पात्रे चतुस्रक्तौ स्वयमवपन्नादेशाखारे कर्णागश्च कर्णागश्च तण्डुलायपि च दुलाद्य कर्णा सह शिवार्हस्पत्यो स्वयङ्कृता वेदभवति स्वयम् दिनम् बरिः स्वयम् कृतनिर्भस्यैव श्वेता श्वेतवत्सा दक्षिणा अग्नजय स्पदयश्यामागं चलगुं सभित्रय सत्यप्रसवाय पुरोडा संवादशकपालमाशूनांद्राजपशुपदयुकं छरुं बृहस्पदैवाचस्पदेवरं झरुमिन्द्राज्येष्ठादपुरोडा समेकादशकपालं महाव्रेहेणां मित्राय सत्यायाम्बाणां वरुणाय धर्मपदयमलं झलगुं सभिधात्मा नागं नागं पदाभग्निर्गृहपदेनागुं स्वभावनस्पदेनागुं रुग्रहपशूनां गृहस्पतिर्वाचामिन्द्रोश्रेष्ठानाम् त्यानां वर्णो धर्मपतीनां ये देवादे क्षत्राय आधिपत्या राजा सोमोऽस्वागं राम्भुं राजा प्रवित्यं नाम राज्यमदाधिस्वां तनुपं वरणश्रेच्छुच मित्रस्य मृत्या अघो मामन्महिमहृदस्य सर्वेदा वरुणस्याभो मन्मिलगे वैदरातिमता लेदसोषुदं तजज्ञजालिते नव्यजरिमानन्न आनद्विष्णोक्रमाश्री विष्णोक्रां तमसि विष्णो विक्रान्तमसि अर्चैतस्था पाम्पतिरस विषास्योर्म सूर्यत्वरेष्ठ विश्वभृतश्च जन हृतश्चाग्नेस्तेजस्याः स्थापामोऽषुधेनागुं रसस्थापो देवेर्मधुमतेर्गण्ढन्नोर्जस्मतिराजसो या चितानाः धर्मद्रावरुणावभ्यषम् च नयाचलम् गमनयन्नत्यराजेः राष्ट्रदाश्च राष्ट्रम् दत्त स्वाहा राष्ट्रदाश्च राष्ट्रममुष्मे दत्ता देवेनापः सम्मथुमतेर्मथुमतेभिसृज्यम् महिमर्चः अनाधितामर्चः क्षत्रिजागदधतेरभृष्टमसि वाचो बन्धस्तपोजाः सोमस्य धात्रमसि शुक्रावः शुक्रेणोत्पुनामि चन्द्राश्चन्द्रेणामृता अमृतेन स्वाहारादसूजानाः द्युम्यनेरोर्चयता निष्ठा वस्यवसानः अस्यासुजग्रे वरुणश्रथस्थमपायुम् शिशम् मातृतमासन्तः क्षत्रस्योमसि क्षत्रस्य ज्योनितस्या विन्नौ अग्निर्गृहवधिराविन्नो वृद्धस्य आविन्न घोषा विश्ववेदा आ विन्दौ मित्र्या वरुणाविधा वृथा वा विते आविन्ना देव्य विश्वयोप्या जैशमपराराजासोऽस्माकं राह्मणा नागुम्बाजेन्द्रस्य वज्रिवात्राभ्यस्तजालं वृक्रं वध्याक्षत्रुपाधनास्थपादमाः प्रत्यञ्चम् पादमा तिर्यं च मन्वञ्चम् मा वाददिग्भ्यो मा वादविश्वाभ्यो मानाष्ट्राभ्यः पादहिरण्यवर्णाक्षसा ोणावगुतौ सूर्यस्यारोहतम् वरुणमित्रगर्तन्ततश्चक्षाथा मदितिम् दितिम् च सर्यमातिष्ठायत्रे त्वा छन्दसामवदत्रं सामान्यर्देवतां ब्रह्म द्रविणमुग्रामातिष्ठ तिष्टु प्राछन्दसामवद विगुंसस्तोमो वैराजगुंसाममित्रावरुणौ देवताबलम् द्रविणमोद्ध्वाजान्त्रिणवत्रयस्त्रिगुंसौ स्तोमौ शाक्वरैपदे सामने हस्पदर्देवतावच्चो द्रविणवेदृञ्चान्याद्रिम् चैताद्रिम् च प्रतित्रिञ्चमितश्च शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मागिश्च सत्यश्च तपाश्चाप्रबुम्भाः स्वाहा सोमान स्वाहा सवित्रे स्वाहा सरस्वत्ये स्वाहा घूष्णे स्वाहा बृहस्पतदे स्वाहेन्द्राज स्वाहा घोषाय स्वाहा श्वोगाद स्वाहा स्वाहा भगाद स्वाहा क्षेत्रस्य पदवे स्वाहा पृथविजे स्वाहाक्षाय स्वाहा दिवे स्वाहा सौर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यस्वाहाभ्य स्वाहा स्वाहास्वलेभ्यस्वाहा चराचरेभ्यस्वाः परिप्लवेभ्यस्वाः सरे समेभ्यस्वाहा सोमस्य क्विषदसितवे ममेषद्भोजातमृतमसि मृत्योन्मा पाहि विद्योन्मा बाह्यवे एष्टादन्तशोकानिरस्तन्नमुसे शिरः सोमो राजा वरुणो जैवा धर्मसुमश्च जे दे दे वाचकं सुबन्दान् दे ते प्राणकं सुवन्दान् दे ते चक्षुः सुमन्तान्त्यजे श्रोत्रगुंसुवन्तां सोमस्य वर्धसेन्द्रस्येन्द्रियेण निद्रावरुणजोर्वीर्येण मरुदामोदसा क्षत्राणाः क्षत्रपतिरस्य चिदिवस्पाहि समायम् नाम तस्मै हुतमसि यमेष्टमसिनत्वन्यो विश्वा जाता निपलिता बभूव यत्कामास्ते तु हुमस्तन्नो अस्तु भजग्स्यामदोरदीनाम् इन्द्रस्य वज्रिगात्रस्तजायं रुद्रं वध्यान् निद्रा वरुणयोस्त्वा प्रशास्त्रोज्ञस्य लोगाक्रमो श्रीकृष्णोऽक्रान्तमश्रीकृष्णोर्विक्रान्तमसि मरुतान्दसगमाप्तं मनस्समहमिन्द्रिजैनीर्यणपसूनां मञ्जिमसतपे मे मन्युर्भोजान्नमो मात्रे पृथिविदेवाहं मातरं पृथिवेगम्भम् पृथिवेः सेजय तस्याजुगस्याजु ह्योर्गस्योर्जम् मेथे ह्युङ्गिवर्चो शिवचो मयुधेग्हपतये स्वाहास्पतधे स्वाहेन्द्रस्य बलाज स्वाहा मरुतामोदसे स्वाहासुरं दरिक्षसद्धोरावे तिषदति चर्दुरोटसत् नृषद्मरसदृतसद्भ्योमसदब्जा गोजा अद्रिचारितम् बृहत् निग्रासि वरुणोऽसि समहम् विश्वेर्देवैः क्षत्रस्य नाभिरसे क्षत्रस्यमासे दशतमासे गमाद्वाहिगुंसेन्माहिंसे शादशतम् आज्यात्रब्रह्म त्वं राजन् ब्रह्मासि सवितासि सत्यस पगुं राजन् ब्रह्मासेन्द्रौ सल्यौजा ब्रह्माजन् ब्रह्मासि मित्रोऽसि सुषेव ब्रह्मा त्वगुं राजन् ब्रह्मासि वर्णोऽसि सभद्र से वत्रगस्थयामे आराध्यनिसो जलकम राज भोस्र सोका सुमंद्रला ष्टागपालं नं दक्षिणासारस्वदं च दक्षिणासारित्रम्बादश्स्तो दक्षिणासौष्णं च्यामो दक्षिणादशकपालं दशकपालं महानिरष्टो दक्षिणा सौम्यञ्जरं दक्षिणात्वाष्टमष्टाकपालगो That's right. सद्योदेक्षयं सद्यः स्वमन्त्रेण दि पुण्डलि स्रजां प्रगच्छलि दश भसतरे स्वमन्द्रेणादिदश वेजो भवति शतं ब्राह्मणाः पिबन्ति सत्तदशग्रस्तोत्रम् भवति प्राकाशावद्भवे ददाति स्रजमुद्यात्रे रुक्मगुंहोत्रेष्वं प्रस्तोत्रप्रतिहर्तृभ्यान्वादशमष्ठौभ्येर्ब्रह्मणे वशान्मये वरुणाय राह्मणाय छुंसि ने वासेनेष्टापो दृग्भ्यादिस्थोरिजवाहमग्ने जयभार्गवो होताभवदिश्राजम् ष्टागपालं नक्षिणेन्द्रमेकालशकपालमृतभो दक्षिणामे दक्षिणा मेत्रावरुणे मामिच्छां वसा दक्षिणा दक्षिणादित्यां गर्भिणी मानभदे मालुवृष्टं वष्टौ हेभ्यां वादशकपालन् नरस्व सत्यवाचे चलगुम् समित्रे सत्यप्रसवाय पुरोडा संवादशकपालन्धि सन्मगम् शुष्कधृतिर्दक्षिणा सौम्यं चरुपुंसामित्रं वादशगपालम्बा बृहस्पत्यं चरुन्ष्टमष्टाकपालम्बैश्वानरं वादशगबालं दक्षिणा रथवाहन वाहो दक्षिणासारस्वदं चरण्र्वर्मपदि पोष्टं चरुं मैत्रं चरुं वारुणं चरुं क्षयेत्रपत्यं चरुमादित्यञ्चरुमुत्तरो दक्षिणा स्वाद्वीन्त्वा स्वादुना देव्राम् देवम् सोमेण सोमाश्यम् पक्ष्यस्व सरस्वत्यै वक्षस्येम्राजसुत्रा पुना तु ते परिस्मृतगुंसुम् सूर्यस्य दुहिता पालेण शश्वतातना पादः पोलः पवित्रेण पत्रे सोमृतः इन्द्रस्य युध्यः सखायजङ्गजपमन्तो जपञ्चिव्यथानपूर्वम् वियूयैषाम् कृणतभोजनानि परिहो नमो वृत्तिम् न जग्मुः आश्विनम् धूम् रपालभते सारस्वतम् मेषमैम् रवृषभैम् रमेकादशकपालम् दर्ववलिसा वैत्रम् वा दशकपालम् वा रुणम् दशकपालगुम् सोमप्रतीकातरस्त्रोक्लुत पडवा दक्षिणा अग्नाविष्मो महिधामम् वा गुह्यादुषाणा दमे दमे सुष्ठुतेर्वा मुधाना प्रतिवान् जक्वाघृतमुच्चरण्ये वृणोदेवी दे, सरस्वती वाजे भर्वाज देव नाम विद्र्यावतो आनादिवो हतः पर्वतादा सरस्वतीगन्तु यज्ञम् भवन्दे दुषाणाखदाचिषग्मान्नो वाचमसते शृणोदो बृहस्पते दुषस्वनो हव्यानि विश्वदेव्या यास्वरत्नानि दासुषे ये वापित्रे विश्वदेवाचकृष्णे लग्नेर्वचे मनमसाहगे बृहस्पते स्वप्रजा वेलवन्तो भजज्ञस्यामपदयोरीणाम् बृहस्पदे अधिगदर्यो अर्हाद्विमर्निभातिक्रतुभज्जनेषु यज वेदयच्छव सत् तत्प्रजात तस्मासु द्रमिणन्थेः चित्रम् आनो मित्रावरुणाघृतेर्गव्योजमुक्षतम् मल्भारजागुंसि सुक्रदूहवासि सितम् देवसेन आनो गव्योजमुक्षतम् दे घृतेन नो जनेः श्रवयदं युवाना श्रुतम् मे मित्रावरुणा हवे अग्न्यम् वः पूर्यम् गिरा देव मे देवसूना सपर्यन्तः पुरप्रियम् यन्दम् नक्षेण प्रसाधसम् मक्षो देव पतो रथ शूरो वा उत्सुकासुचित् देवाना नयमानरिष्यसि न सुन्मानन देवयो आसत्र सुवीर्यमुदत्यथा स्वस्मिष्टम् कर्मणा नशम् न प्रयोषम् न जोषति उपक्षदन् द्विसिन्धवोमयो भुवजे जानम् च लक्ष्यमाणम् च च पपुरम् च श्रवस्य बोभृतस्य धारा गुरयम् द्विस्मतः विशोचे ममी पायालो गजमाविवेश आदेवाधेथान्य कृतञ्चिदेन प्रमुक्तमस्मत् सोमारुद्रापमेतान्यस्मे विश्व तनोषु भे गजानि धत्तम् अवस्यदम् वञ्चतव्यम् नो अस्ति तनोषु बद्धम् कृतमेनो अस्मत् सोमापोषणा जननारयीणाञ्जननादिवो जननासुल्याः जातो विश्वस्य भुवनस्य गोपौ देव अकम्बन्नमृतस्तनाभिम् भूमौ देवौ जायमानौ जुषम् देवौ तमागुंसि गो हतामजुष्टा आभ्यामिन्द्रः पक्व मामा स्वन्तः सोमाभूषभ्याम् जनतु श्रियासु ओ